अथ एकोनविंशम् काण्डम् ओ सं सर्वन्तु नद्या संवदाः संवदत्रिणाः यज्ञमिमम् वर्धय राजिणः सं श्राव्ये राणादि भोमी यज्ञमिमम् वद्भजरायः सं श्राव्येण हरिभोमि रोपम् रोपम् वयोः संरब्धीनम् परिष्पदे यज्ञमिमम् चरस्रः प्रदिशो वद्भजन्तु सं क्षन्ते सनिशरावश्यमुसे सन्तु वश्याः क्षन्तापो सन्वन्याः शमुदे सन्त्वनोऽप्याः क्षन्ते खनित्रिमा वश्यम्याः कुम्भेभिरावृताः कनप्रजः खनमानाभिप्राः गम्भीरे आवसाः भृषभ्योऽभिषक्तरापो अक्षाः वदावसि अपामः दिव्यानाः ममाम् श्रो तस्यानाम् अपामः प्रणयजनेश्वरः भवथवादिनाः सा अपश्वि अपोयक्ष्मम् करणीया यथैव तृप्यते वयस्तास्तः सुलभे शतीः दिवस्पृथिव्याः पर्यन्तरिक्षात् बृहस्पतिभ्यो यत्र यत्र विभेदो जादवेदास्तरस्तुलो ये हि यस्ते अप्सुमहिमायोजो सप्ता आन्तः अग्ने सर्वास्तम्भास्वदाभिन्दरे हि द्रविणो राजस्वः यस्ते देवेषो महिमा स्वर्गो जाते तनोऽपि दृष्ट्वा देश ष्टिर्जाते मनुष्ये शुभप्रथेग्नेतया कयमस्मासोधेहि शुभकर्णायकवये वेद्यायवदोऽभिर्वादैरुपजापि रातिम् यतो भयमहायन्तम् अस्मवदेवानाय हेणोः अग्ने या वा भूतिम् प्रसरमापसर्वाया जा जाताया जा हव्यमकर्णो भिष्टुप्रोहसु भव्यमग्निरग्न स्वाहा आगोतिम् देवीम् सुभगाम् पुरोदधे दे चित्तश्च माता सुभवाह नोऽस्तु यापाशा मे विजयस्तु विधेय मे नाम् मनसि प्रविष्टा आगोत्यानो बृहस्पत आगोत्यानमु यथो न शुभवो भव बृहस्पयम् आगो दिमाङ्गे जाना वाच मेता यस्य देवा देवताः सम्भोः स कावो अन्वे तस्मान् इन्द्रो राजा जगतश्चर्षणी नामधिक्षमेषो रोति ततो ददाति दाशुरेवसो रिचोद्रासौस्तुदश्चिनर्वाच सहस्रबाहुः पुरुषः सहस्राक्षःसहस्रवात् स भूमिम् विश्वरोः ेन हिमानस्ततोऽध्यायाम् शो रोषः पादोऽश्च भूताहित्रिपादस्यामृतम् दिवे पुरोष एवेदम् सर्वम् यद्भूतम् यच्च भाव्यं उदामितर्थस्येश्वरो मेनाभवन् सः यत्पुरुषम् यदुः कविधा व्यकल्पयन् मुखम् किमस्य किम् बाहूयोच्यते ब्राह्मणो च मुखमासीत् बाहोराजम्याभव मध्यन्तरस्य यद्वैश्च पद्भ्याम् सोद्यो अजायत चन्द्रमामनसो जातश्चक्षुः सूर्यजायत ष्टाग्निष्टप्राणात्मायुरजाय महाभ्याशीर् शेर्षाद्योः समनवर्तता पद्भ्याम्भो न श्रोत्रात् तथा लोकाम् अकल्पयन् विराजग्रे समभवद्विराजोऽधिपोरूढाद्यो विमलो पुरः यत्पुरोषेण विगाः देवायज्ञमलम् मताः वसन्तो अस्यासीराज्यम् ग्रीष्म विद्मर्षरद्धिः तैज्ञम् प्रावृषा प्ररोक्षन् पुरोषम् जातवग्रशः तेन देवायजन्तध्यावसवश्च अजायम् दे जने तो भयादः दावो भयज्ञे तस्मात् तस्मात् जाता जामय छन्दो यज्ञात् सर्वहृदजः सामानिजज्ञे छन्दो यज्ञे तस्मात् जजस्तस्मादजायदा तस्मात् जज्ञात् सर्वहृदः संहृतम् मृदराज्यम् ों शांश्च क्रेवायव्या नारण्या ग्राम्याश्च सप्तास्यासम् परितरस्य सप्त सविदः कृताः देवायव्यज्ञन्तम् बाणाबद्धम् पुरोषम् वसम् मार्द्रो देवस्य बृहतो अंशवः सप्तसप्तधीः राज्ञः सोमस्याजायन्तजातस्य पुरोषादधि चित्राणि साकम् पिबिलोदनानि हरे सर्वाणि वारे जवानि दुर्मिषम् सुमरिमिच्छवारिमेभ्यः स पर्यकम् सुगमनन्ये गत्ये कालोहीणे चास्तु भद्रम् मृगशीरक्ष माद्राचारपुष्य बादुराश्लेशायम् मघामे पुण्यम् पूर्वाल्गुण्यौ शात्रहस्तचित्रा शिवादि सुभोवेः अस्तु राधेः विशाखे सुभवानु राधा ज्येष्ठासु नक्षत्रवरिष्ठम् पूर्वा राधरामेवषाढावोर्जम् धेश्युत्तरावहन्तु अभिजिन्मे रासताम् पुण्यमेव श्रवण श्रमिष्ठा कुर्वताम् सुपुष्टिम् आमे महच्छदभिषक्वरी यामे द्वया प्रोष्ठपदाशु शर्मा आरेवतीश्रैलोभम् मामेरयम्भरण्यावर्हन्तो यानि नक्षत्राणि दिव्यान्तरिक्षे अप्सुभोमौ यानि नगेषु दिक्षु प्रगल्भयाम् चन्द्रमायान्येति सर्वाः ममेतानि शिवानि सन्तु अष्टाविंशानि शिवानि शग्मानि सह योगम् भजन्तु मे योगम् प्रपद्ये क्षेमम् च क्षेमम् प्रपद्ये योगम् च नमो रात्राभ्यामस्तु स्वस्तितम् मे तु प्रातःसु साजंसो दिवंसो मृगंसु शकुनम् मे अस्तु सुबलमङ्गे स्वस्त्या आमत्यम् गत्वा पुनराजाभिनन्दन्न अनुभवम् वरिहवम् परिपादम्बरिक्षवम् सर्वैर्मेम्भान् परान् सवितः सुम् वरिक्षवम् पुण्यम् भक्ष्ये महिक्षवम् शिवादे पावनासीताम् पुण्ये गच्छाभिनेहता इमाय न्द्रताः कृत्वा मह्यम् शिवतरमास्तु स्वस्तिनोः अस्मभजन्नास्तु नमो रात्राभ्यावस्तु शान्ताद्यौ शान्तापृथिवी शान्तविरमवान्तरिक्षम् शान्तावौ दम्वति लापः शान्तारः सन्तोषरधीः शान्ताली पूर्वरूपाणि शान्तम् नस्तु कृताहृतरम् शान्तम् भूतम् च भव्यम् जलेव जवास्तुनः ये या परमेष्ठिरी वा देवी ब्रह्म संसिता यदैव सहसजय घोरम् तदैव शान्ते अस्तु नः इदं यत्परमेष्ठिनम् मनो वा ब्रह्म संसितम् येनैव सहृजय घोरन्देरस्तुनः इमादिजा पञ्चेन्द्रिया मनः षष्ठानि मे रजि ब्रह्म न संशीतानि यै सृजोरन्दैरेवन्तेरस्तुनः चन्नामित्रस्य वरुणश्चम् विष्णुश्च शन्नरिम्भो बृहस्पतिः शन्ना भवत्वम् वरोणश्च मन्दः उत्पादा पार्थे मान्तरिक्षाः सन्नादिगरानः शन्नाभो विमानादक्षायन्ध शृङ्गावो लो हि रक्षीराश्चम्भो विरीर्येः नक्षत्रमुल्काभिरदंशमस्तु न षण्डाराश्चमोदन्तकृत्या षण्श्च मुल्काले शोकसर्गाः शमो न भवन्त सन्माग्रहाश्चान्दमासाष्टमानित्यश च राहुणा षण्मा मृत्यर्धोभगे दुः सम् रुद्रास्तिमरेजसः शम् रुद्राश्रम्वसर्वश्रमाः दित्याश्रमग्नजाः षण्महर्षयो देवाः शम् देवाः श्रम् बृहस्पतिः ब्रह्म प्रजापादग्धाता विश्वे मे देवाः शर्म यच्छन्तु सर्वे मे देवाः शर्म यच्छन्तु यानि कानि चिच्छान् तानि लोके सत्तरिषयो विदुः सर्वाणि सम्भवन्तु मे शम् मे अस्तु मे अस्तु पृथिवीशाम् दिरन्तरिक्षंशाम् दर्दोशाम् दिरावशाम् दिरोषादयश्चाम् दर्वनस्पदाम् दर्विश्वे मे देवाशाम् यः सर्वे मे देवाशाम् तिशाम् तिष्याम् देवि भिः श्रान्तेर् सर्वशान्तेर् समयामोहनम् यदि ह्रोणम् यदि ह क्रोणम् यदि हतामम् दरच्छान्तम् तच्छिवम् सर्वमेव समस्तु नः शन्नरिन्द्रागीभवतामवरोभिः श्ररिन्द्रावरो नातमुया शरिन्द्रासोमाः सुभिताजय शय्याश्च नरिन्द्राः भूषणाभाजय सातौ छण् अवगष्टमो न श्रंसो अस्तु छण् राजाः छन्नः सत्यस्य सुजमस्य रोचे भगवतो तथाभिः रोदशीर्षदिशन्धिषन्महो देवानाम् सुभमाः निशन्तो शण्ज्योतिरनीकोऽस्तु षण्णो मित्रावरुणामश्विनाशम् शन्नः सुकृताम् सुकृतानि सन्तु शन्नोभिवाहतु माताः षण्माः पृथिवीपूर्वहो तौषमन्तरिक्षम् ऋषे हेरोस्तु शन्नोषधीरम भवन्तु शन्न वजसरस्पतीरस्तु जिष्णुः शन्ननिन्द्रो वसोभिर्देव अस्तु समाधित्यैभिर्वरोरस्तु शंसाः शन्नो रुद्र रुद्रेभिर्जनाः षष्ठण्ष्टाग्राभिर्हस्मे नः सोमो भवतो ब्रह्म शन्नः शण् सन्तु यज्ञाः शन्नः स्वरोणाम् विदरो भवन्तु शन्नः प्रस्वाश्च वेदी षण्णः सौर्य वदक्षा उदेशण्णा भवन्तः प्रदिशश्चतसः षन्नः पर्वताध्रुवयो भवन्तु षण्णः सिन्धर्वः समो सम्पाः षण्मा वीरभवतु मृदेभिः सन्मा भवन्तु मरुदः स्वर्गाः सन्मा विष्णुः समो गोषाणास्तु षण् भवित्रम् शम् वस्तु वायुः षण् देवः सर्विधायमाणः षण्मा भवन्तु शिभातीः छन्नः पर्यन्यः भवतु प्रजाभ्यः षण्क्षेत्रस्य पदीरस्तु शम्भो षण्णः सत्यस्यैव भवन्तु षण् सन्तु गालाः षण् भवः सुकृतः सुहस्ताः शन्मा भवन्तु विदरोहवेषु षण्माः देवा विश्वदेवा भवन्तु संसरस्वतीभिरस्तु समाभिषाच मूरादिषाचः षण्माः देव्यात् पार्थिवाषण्प्याः षण् अजयगरवात् देवः अस्तु समरेभ्या आंसमुद्रः षण् अवान्नवात् देवरस्तु षण् प्रश्नर्भवतु देवगोः वा नित्यारुद्रामसो दिशन्तामिदम् ब्रह्म क्रियमाणम् नवीयः शृण्वन्तो नो दिव्याः पार्थिवासो गोजाः ता उतरे निज्ञया सह हे देवानाः मृत्यजोः निज्ञयाः सोमनोर्ययत्रामृता हृत्याः तेनो दासन्तामृगाय मद्ययोजम् पात स्वस्तिभिः समानः नरस्तुमित्रामरुनाथलग्ने चमभ्यभिरस्तु धस्तम् असीमहि गाधमुत प्रतिष्ठान् नमोः दिवृहदे पादनाय उषा पस्व स्वस्थमस्तम् वर्तयति अर्पमी सुजातराः अयावाचम् देवहीतम् सने मम देव शरहीमाश्रुवीराः इन्द्रस्य बाहोष्ठवीरौ वृषा नौ चित्रादि वाहारेष्णो गौयोक्षे प्रथमो योगागदेयाभ्याम् जितमसूराणाम् स्वार्यत आदिशिषारो वृषभोरभीमो घनघनक्षोभश्च लिखनीया सङ्क्रन्दीषये कीरशतम् सेना सागमिन्द्राः सङ्क्रन्देन विमीशेन जिष्णुरा योध्येन दुश्चबालेन धृष्णुरा तदिन्द्रेण सर्वेण कृष्णा शयशङ्म् स्रष्टा सयुज इन्द्रगणेन संसृष्टो गृहम् वा प्रतीताभिरस्ताः परविज्ञायश्च वीरप्रवेहेरः सह स्वान् माजे सहनानमुग्रः अभिवीहेरो अभिषत्त्वादहो याजयित्रमिन्द्रमाजश्च गोलितम् इमम् वीरमनोहर्षध्वमुग्रविन्द्रम् सकाचनुसंव्रभध्वनम् लाजितम् गोलितम् वज्रबाहुम् जयन्तमज्र प्रवणन्त मोजसा अभिगोत्राणि यः सागाहमालोदाय उग्रशलमन् निर्दुश्चन प्रदनाशालयोध्योऽस्माकम् सेनाः अवधौ प्रयत्स बृहस्पते परीया वित्राधमानः प्रभञ्जन् छत्रोऽहम् प्रवणन् न मित्रा नस्माकमेद्धवितानौ ना इन्द्रयेषाम् नेता बृहस्पतिर्दक्षिणायज्ञः पुरे तु होमाः देवसेनानामभिभञ्जतीनाम् जयम् दीनाम् मरुतो यन्तु मध्ये इन्द्रस्य विष्णोमरुणस्य राज्ञे आदित्यानाम् मरुताम् शब्दमुखम् महामानसाम् घोषो देवानाम् जयतामुदस्तात् अस्माकविन्दः समेतेषुभजेष्वस्माकम् यायिष हस्ताजयन्त अस्माकम् वीरा उत्तरे भवन्तस्मान्द्रे वासो वताहवेश इलमुच्छेयो वसानमागाम् शिवे मे ध्या पृथिवीया भूतः असवत्नाः प्रतिशोभा मे भवन्तु नयित्वा यश्माभयन् अस्तु यत इन्द्रहयामहे ततो नो अभयम् कृधितवर्णम् इन्द्रम् मयमनो राजम् भहे नो राज्यास्मद्विपदा चतुष्पदा बाणसेनारऋषिरुपरगुर्विशोजीन्द्रगृहो विनाशय इन्द्रस्त्रातोत वृत्रघापरस्मानु स रक्षिताचारमदः स मध्यदर्स पश्चात् स पुरस्तान्नोऽस्तु उरुन्नो लोकमनो देश विद्वान् स्वा आर्योजनवायम् स्वस्ति उग्राचार्यस्तवीरश्च बाहु उपक्षयम शरणन्तायन्नत्यन्तरिक्षा वायम् द्यावा पृथिवी उभेरिमे यम् पश्चादभायम् पुरस्तादुत्तरादरादभायन्नास्तो अभायम् मित्रादभाय मित्रालभारादादभायमुरो अभयम् नष्टमभायम् दिवादः सर्वाः आशा मम मित्रम् भवन्तो असमक्तम् पुरस्तात्पश्चान्नाभायम् कृतम् सविरामाः दक्षिणत्तरराम्मा च देवतेः निरोमाः नित्या रक्षन्तु भूम्याः रक्षन्तु अग्नयाः निन्दाग्नी रक्षताम् पुनस्ताः रश्विनाः शर्म रक्षताम् निरस्तीना रक्षल् भो दर्गो मे सर्वदर्शन्तु वर्म क्रमे तस्मिन् शरे ताम् पुरम् समाः रक्षतु समाः गोपायतु तस्मा आत्मानम् परिदये स्वाहा वायुर्मान्तरिक्षेणैतस्याः दिशत्वाः सुतस्मिन् कवे तस्मिन् शरेधाम् पुरम् प्रैमि समारक्षतु समाः गोपायतु तस्मा आत्मानम् परिदजे सोमो हो मारुद्रेर दक्षेणाय दिश प्वाः तस्मिन् क्रमे तस्मिन् शरेणाम् पुरम् प्रैवि समाः रक्षतु समाः गोपाय तस्वाहा आत्मानम् परि दधे स्वाहा वरोणो मादित्यैरे तस्याः दिश् प्वाह तस्मिन् क्रमे तस्मिन् शरेणाम् पुरम् वैवि समारक्षतु समाः गोपायदुतस्मा आत्मानम् परी दधे स्वाहा सूर्यो मात्याः पृथिवीभ्याम् परीक्ष्यः विषत्मा तु तस्मिन् क्रमे तस्मिन् चरेणाम् पुरम् प्रैमि समारक्षतु समाः गोपाय दुतस्मा आत्मानम् परी दधे धीमीरेण तस्याः दिशः पान्तु तासु क्रमेणायताम् पुरम् प्रैवि तामाः रक्षन्तु तामाः गोपायन्तु ताभ्य आत्मानम् हरे ददे स्वाहा विश्वरम् माम सप्तदिषिभिरुदि चादिशः पान्तु तस्मिन् क्रमेणस्मिन् समाः रक्षतु समाः गोपायतु तस्मा आत्मानम् परे दधे स्वाहा इन्द्राः माभरता नेतस्याः दिशः पाः तु तस्मिन् खमेकस्मिञ्चरेणाम् परम् प्रैवि समाः रक्षतु समाः तस्मा आत्मानम् परे दधे प्रजावा ज प्रजदनवांसः प्रतिष्ठायाः दुरायाः दिश पाः तु तस्मिन् क्रमे तस्मिन् क्षणे ताम्बुरम् प्रेमि समाः रक्षतु समाः गोपायतु तस्मात्मानम् परीरधे स्वाहा बृहस्पतिमाविश्वैर्देवैर्ग्राणाः दिश पाः तु तस्मिन् क्रमे तस्मिन् क्षणे ताम्बुरम् प्रेमि समाः रक्षतु समाः गोपायतु कस्मात् आत्मानम् परे दधे स्वाहा अज्ञिन्ते वसुवन्त पृच्छन्तो हे माघाजवः प्राच्याः दिशोःभिदासात् बालिम् ते एन्तरिक्षमन्त पृच्छन्तो हे माहाघाजव नेतस्याः दिशोःभिदासाः सोमन्ते रुद्रवन्त पृच्छन्तु देवाः गायवो दक्षिणायादिशोऽभिदासात् वरुणन्तादित्यवन्तमृच्छन्त देवाः गायव एतस्याः दे दिशोभिदासात् स्तोन्ते द्यावाः पृथिवीरमन्त पृच्छन्तु देवाः गायवः प्रतीच्याः दिशोऽभिदासात् अवस्तो धीमतीरमिच्छन्तु ये माः गायव एतस्याः दिशाभिदासाः निःश्वरम् मानन्ते सप्तरि तमिच्छन्त ये माः गायव उदीत्यादिशोऽभिदासात् इन्द्रन्ते मरुत्वम् तमिच्छन्त ये माः गायव एतस्याः दिशोभिदासाः प्रजापातिते प्रजननम् तवच्छन्त ये माः गायवो द्रुवायाः दिशोभिलाशात् बृहस्पतिम् ते विश्वन्नतमिच्छन्त ये माः गायवर्ध्वायाः दिशोभिलाशात् मित्रः प्रीतिम् यो दक्षा भक्ताम्बुरम् वजयाविदः तामाभिशत हाम्रवीशतशर्म शा चर्म जतु वायु अन्तरिक्षे लोदक्रामत् ताम् प्रणयामिव रामावीशत ताम् प्रवेशत रामश्रम च ब्रह्म जयच्छतुम्बुरम् प्रणयामिव रामावीशत ताम् प्रविशत सामश्च ब्रह्म जयच्छतु चन्द्रमा नक्षत्रेद क्रामत्ताम्बुरम् प्रणयामिव ताम् प्रवेशतर्म च वर्म च यच्छत स्वमोषधी भेदवकामर्ताम् पुरम् वृणया विवह तामावीशत ताम् प्रवेशदर्म च वर्म च यच्छतो यज्ञो दक्षिणाभिरता वर्ताम् वरम् वृणरजाविवह तामावेशत ताम् प्रवेशद सामश्चर्म च वर्म च यच्छत समुद्रो नदीभिर्दर्कामत्ताम्बुरम् प्रणयामि वः कामादीशत ताम् प्रविशद्रामः शर्म च वर्मण जयच्छतु ब्रह्म ब्रह्मभिर्दर्कर्ताम् प्रणयामि वः कामावीशद्रवीशद्रामः शर्म च वर्मण जयच्छतु इन्द्रो वीर्येणोद क्रामत् ताम्बुरम् प्रणयामि वः रामावीशत ताम् प्रवेशत रामश्रम्म च वर्म जयच्छतो देवामृते नोदक्रामं स्ताम् पुरम् प्रणयामिवह रामावीशत ताम् प्रवेशत सामश्रम्म च वर्म जयच्छतो प्रजापाय प्रजाभिरुदकाम ताम् अमन्यसु पौरोषेयम् अधैयमिन्दापिता बृहस्पतिः सोमो राजा वरुणोऽश्मिनायमः पोषास्माम् दैवादुत्याी चकार भुवरलस्य यस्पदे प्रजापातरम् मातरिष्वाः प्रजाभ्याः प्रदिशो यानीमसते दिशश्च तानी मे बर्माणि बहुलानि सन्त यत्के नोऽस्वनश्च्यन्तदेवाधीराजोधेः हिलः इन्दो यश्चक्रे वर्मस्मान् विश्वतः वर्म मे द्यावापृथिवी ब्रह्मा सौर्याः वर्म मे विश्वे हे देवाक्रह्म मा प्रापन् प्रदीचिका गायत्र्यो ओष्ठन्ति जगति ङ्गे पञ्चानुवादे स्वाहा षष्ठाय स्वाहा सप्तमाष्टमाभ्याम् स्वाहा निरनकेभ्यः स्वाहा हरिदेभ्यः स्वाहा क्षुद्रेभ्यः स्वाहा वैयायिकेभ्यः स्वाहाभ्यः सङ्ख्येभ्यः स्वाहा द्वितीयेभ्यः सङ्गेभ्यस्वाहा तृतीयेभ्यः सङ्गेभ्य स्वाहा उत्तमेभ्यस्वाहा उत्तमेभ्यस्वाहा दृढेभ्यस्वाहाभ्यस्वाहा गणेभ्यस्वाहा मा गणेभ्यस्वाहा सर्वेऽभ्योङ्गेनाभ्योविदगणेभ्यस्ताः पृथक्सहस्राभ्यां सा ब्रह्मजे स्थाः ब्रह्म ज्येष्ठा सम्भृता वीर्याणि ब्रह्माग्रे ज्येष्ठन्ति वयमातरताोतानाम् ब्रह्म प्रथमोदयज्ञेतेन ब्रह्मणा स्पर्धितुङ्गः धर्मणा च भ्यस्ताः पञ्चश्चभ्यस्वाः षडश्चभ्यस्वाहा सप्तश्च भ्यस्वाहाष्टश्चभ्यस्वाहा नवश्चभ्यस्वाहा दशश्च भस्वाः एकादशश्च भ्यस्वाः द्वादशश्च भस्वाहा त्रयोदश चेभ्य स्वाहा चतुर्दश चेभ्य स्वाहा पञ्चदश चेभ्य स्वाहा षोडशेभ्यः स्वाहा सप्तदश चेभ्यः स्वाहा अष्टादश चेभ्यः स्वाहा एकोनविंशति स्वाहा विंशति स्वाहा मात्काण्डाय स्वाहा भ्यस्वाहा एकाचेभ्यस्वः स्तुत्रेभ्यस्वाहा एकादृशेभ्यस्वः प्रभीरेभ्यस्वा सूर्याभ्यां सह प्रात्याभ्यां सह प्राजावत्याभ्यां सह व्याहस्यै स्वाहा स्वाहा नक्षत्रकल्पाय स्वाहा वैयानकल्पाय स्वाहा शान्तिकल्पाय स्वाहा आङ्गेरसकल्पाय ब्रह्म ज्येष्ठा संहृता वीर्याणि ब्रह्माद्रे ज्येष्ठम् विवयमातरताना भोदानाहम् ब्रह्मा प्रथमोदयज्ञेतेन हारे ब्रह्मणा स्पर्धितुम् कः तेन देवम् सवितारम् परिदेवाधारयन् तेनैवम् ब्रह्मणस्पदे परिराष्ट्राय धत्र वैमन् मायोहे महेक्षत्राय दत्तना यथैहीनम् जलसे नयाम् जोक्षत्रेधिजागरत् वैवम् सोममायोहे महे श्रोत्राय दत्तना यथैहीनम् जलसे नयाम् जो श्रोत्रेऽधिजागरत् वैषत्रधत्तमो वच्चरसेमम् जरावृत्तिम् करोत दीर्घमायोः ृहस्पयः प्रायच्छद्वासरे तत्सोमाय राजे परिधातमावौ जनाम् सुरक्षपरिधत्स्वरालो भवाः दृष्टिनामाभिषस्ति बाहु क्षतञ्जयीलो चेरायश्च स्वष्टदे भोर्वामीनामृश्यु शर्यसो निजान्य भरजासि जीवन् योगे योगे नमस्तरम् मारे माय हवामहे सखारेन्द्रभूतये निरन्यवर्णो अजरस्वीरो जरामृत्युप्रजया संवेश स्म ृहस्पतिस्तनप्रथमस्य चो मम प्रति धावता अग्ने प्रजासम्बद्ध्यञ्जममृतम् दद्धे अधिमत्येषु यन्वेदविधारिणो विभर्ति यद्धिरन्यम् सोरयेद सुवर्णम् प्रजावन्तोमनवः पूर्वजिहे रः चन्द्रम् वच्च सा सन्द्रत्वा युष्माद्भवति यो विभक्ति आयुषे त्वा वच्च सेत्तौ जसे च यथा हिरण्ययजसा विभासाः सिदथानो यद्भेदराजावरुणो वेद देवो बृहस्पतिः इन्द्रो यद् आयुष्यम् भवतेः तस्य भवद् गोभिष्टा वादृषोषाः त्वा पातु वायुभिः वायुस्त्वा ब्रह्मणा वात्यन्द्रस्तावात्यन्दिरैः स्वमस्त्वाक्षत्रे पातु सौर्याः बाध्यस्त्वाः चन्द्रोत्राः वातः प्राणेन रक्षतु इवस्ति स्तः पृथिवे स्त्रेण्यन्तरिक्षाणि नगुरः समुद्रा त्रिवृतम् स्तोमम् त्रवताः स्वादात्र वृद्धेः त्रीन् राकांस्त्रीम् समुद्रांस्त्रीम् रद्रांस्त्रीन् वैष्टा दृढे रसमुक्षाम्य नाज्येन वर्धयन् अर्जेश्चन्द्रस्य सौर्यश्च मा प्राणम् माजिरादभन् मान प्राणम् मा गोह प्राणम् माहरोह प्राणेन आज्ञिम् संसृजति प्राणेन सम्हीतः प्राणेन युष्कताखम् सूर्यम् देवा जनयन् आयोगायुष्कृताम् देवायुष्माञ्जीमारेधा प्राणेनात्मन् वदाञ्जीमा मृत्यो हृदयगावशम् देवानाम् निहितम् निधिम् जविन्द्रान्मविन्द पतिभृत् आवो हिरण्यञ्जुगुमस्त्रवदभिन्दास्त्वा रक्षम् तत्रवता धृद्धेः त्रयस्त्रिंशद्देवतास्त्रीरणीर्यारि प्रियाजमाणा जुगुपुरस्वाहन्तः अस्मिंश्चन्द्रे अभिरधिरण्यम् देनायङ्करवद्येर्याहारि ये देवादिव्येगादशस्थे देवापोहमिरदम् ज्योषध्वम् अन्तरिक्ष एकात् रक्षरे वासो हमिरसञ्जोषद्भम् देदे वा पृथिव्यामेकात् रक्षरे रेः वासो हमिरसञ्जोषङ्समत्वम् पुरस्तात् पश्चान्नाभयम् कृतम् सवितामहारक्षिणत्तरान्माशीपतेः दिवो माः नित्या रक्षन्तु भूम्याः रक्षन्तु अग्नयाः इन्द्राग्ने रक्षता पुनस्ता रस्त्या जाभाव सर्वतः सन्तु इमम् वर्धनामि ते वणिन्देर्धारुत्तार ते जाते गर्भम् सर्वत्रशरतस्तारम् हृतः दशरस्तावयन् घृतशत्रोः दापयन्मनाः र्वांस्तम् दर्भधर्म एवाभिच्छम् तामयम् धर्मयेवाभितवम् दर्भद्विष तव ऋतवम् मरे गदः समत्नाम् भिन्धीन्द्रिवम् भरम्भवत्नाम् हृदयम् द्विषतम् मणे उद्यन्म निपादया भिन्धिगर्भ सवत्नान् मे भिन्धि मे ब्रतमायतः भिन्धि मे सर्वान् दुर्भा मे दृढतो वने छिन्धिगर्भसवत्नान् मे छिन्धि मे व्रतमायतः छिन्धि मे सर्वान् दुर्भान् छिन्धि मे दृढतो वणे वृश्चदर्भसवत्नान् मे वृष्ट मे व्रतमायतः वृश्च मे सर्वान् दुर्हार्दो वृष्टवेद्विषतो वरे गृन्ताभवत्नान्वे गन्तवे प्रदायतः क्रन्दवे सर्वान् दुर्हार्दान् ग्रन्तवे द्विषतो वरे विंशर्भवत्नान्वे विंशवे प्रदायतः विंशमे सर्वान् दुर्हार्दः विंशवे द्विषतो वरे मिथ्यालर्भसपत्नान् मे मिथ्या मे वृथायथ विद्या मे सर्वान् दुर्हार्दो मिथ्या मे दृढ पामने निक्षालर्भसपत्नान् मे निक्षा मे वृथायतः निक्षा मे सर्वान् दुर्हार्दोमिक्षा मे द्विह पामाणे गन्धिगर्भसपत्नान् मे गन्धि रुन्धिमे सर्वान् दुर्हार्दा रुन्धिरेशतो वर्णे रुन्धिसर्भसपत्रान्वे रुन्धिरे वृदरायतः रुन्धिमे सर्वान् दुर्हार्दरुन्धिरेशतो वणे वृणसर्भसपत्रान्वे वृणमे वृदणायतः वृणवे सर्वान् दुर्हार्दः वृणमे दृशतो वर्णे मन्थ दर्भ सपत्नान् मे मन्थ मे वृतनायातः मन्थ वे सर्वान् दुर्हार्दो मन्थ द्विषतोमाणे दह लभसपत्नाहन् मे दह मे सर्वान् दुर्हाद्वो दह मे द्विषतोमाणे दहि दर्भ समत्नाहन् मे दहि मे मृदनायदः जहि मे सर्वान् दुर्भा जहि मे द्विषतोमाणे यत्ते दर्भजरावृत्तिः म् वर्मिणम् कर्ता न भक्त्राहि वैर्यैः शतन्तेभीर्याणि तमस्मि विश्वे त्वाम् देवायसे भो त्वामाहृद्देव ब्रह्म त्वाम् दग्भ्रह्मणस्परिम् त्वारिन्दस्य पुर्वर्म त्वम् न राष्ट्राणि रक्षसि तवत्नक्षयानम् दर्भद्रशस्तपानम् हृदः वयम् क्षत्रस्य अवर्धानम् तनोपानम् गृणो विदे यत्र द्वन्द्वो अभ्यक्रम् तत्पद्यन्यो विद्युदासः रतोऽ्ययोः बिन्दुस्तयोः दर्भाया